उपतिनावद् दशकम् श्रीरामावतारम् गीर्वाणैरत्यमानो दसमुगनिधनम् कोसले श्वृश्यशृङ्गे पुत्र्यामिष्टिमिष्ट्वा दतुषि दशरथ शामृते पायसाघ्यम् तद्भुक्त्या तत्पुरन्द्रीष्वभिधिसृशो समम् जादगर्बा लक्ष्मणेन स्वयमत भरतेनापि शद्रुग्ननाम्ना कोदण्टी कौशिकस्य को क्रतुवरमवितुम् लक्ष्मणेनानुयातो याथो भूस्तादवाचा मुनिकतितमन द्वन्द्वशान्दात्वजेथ नृणान्त्राणायबाणेर् मुनिवचनबलात् ताटकाम् पाटयित्वा तप्त्वा स्मादस्त्रजालम् मुनिव न गमन देवसिद्धाश्वमाख्यम् मारीचम् पदिबदरजसा प्राप्य वैदेहगेहम् बिन्दानश्चान्त्रशूटम् तनुरवनिसुधा इन्दिरामेव लब्ध्वा राज्यम् प्रातिष्ठदास्त्वम् त्रिभिरबि च समम् भ्रातृवीरै रुन्दाने रुशाम् दे भृगुकुलतिलके शङ्क्रमय्यश्व तेजो यादे यातोऽस्य तोध्याम् सुखमिघ निवसन् कान्तया कान्तमूर्ते शत्रुग्नेनैन दधातो गतवधि भरते मातुलस्यादिवासम् ताधाब्तोऽभिषेगस्तव धोग्यायादुकामो वनमनुजवतो संयुधश्चाबार पौरानारुद्यमार्गे गुहनिलयगद त्वम् जडा शीरदारी नावासन्धार्य नत्वा दत्वा गहेतो रतिसुखमवच चित्रकूटे गिरीन्द्रे श्रुत्वा पुत्रार्तिखिन्नम् खलु भरदमुगात् स्वर्गायतम् स्वदातम् तप्तो तत्त्वाम्बुतस्मै निददित भरते पातुका मेदिनी च अत्रिम् नत्वाद दण्टकम् चण्टकायम् हत्वा दैत्यम् विराधम् सुगदिमगलय चारुभोचारभङ्खीम् नत्वागस्त्यम् समस्ताचरनिकर सभद्राकृतिम् ताबसेभ्यः प्रत्यश्रौक्षी प्रियैक्षी तदनु च मुनिना वैष्णवे दिव्यचापे ब्रह्मास्त्रे चाभिदत्ते पदि पितृसुहृतम् प्राप्ताया शूर्पणज्ञा मदनचलत्रो त्रेरर्तनैर्निःसहात्मा ताम् सौमित्रौ विसृज्य प्रबलतमर्षा तेन निर्लूननासाम् दृष्ट्वैनामृष्टचित्तम् रुष्टचित्तं, विपतितम् दूषणम् च ्याहिंसीराचरा न व्ययुतसमदिगांस्तक्षणा दक्षतोष्मा सोदर्या प्राप्तवार्ता विवसदसमुखातिष्टमारीच प्रावधीर्भाणगातम् तन्मायाग्रन्त निर्यापित भवदनुजा रावणस्तामहर्षि तेनार्थो विद्वमन्त किमपि मुदमदास्तत्त्वतो बायलाभा भूयस्तन्वे विचिन्वन्न इत्युक्मा या तेजता यौ दिवमत सुहृत प्रातनो प्रेतकार्यम् गृत्नानन्तम् गबन्तम् जगनित चपरीम् प्रेक्ष्यपम् पातटे त्वम् सम्प्राप्तो वादसूनुम् व्रचमुदि मदन पागिवादालयेश